भगवद्गीता चाप्टर् सिक्स्टीन् वर्षस् वन् टु टेन् अध षोडशोऽध्यायः श्रीभगवानुवाच अभयं सत्त्वसंशुद्धिर्ज्ञानयोगव्यवस्थितिः दानं तमश्च यज्ञश्च स्वाध्यायस्तव स्वाध्या आर्जवम् सत्यमक्रोधस्यागशान्तिरवैशुनं दया भूतेष्वलो लुप्तं मार्धवं ह्रीरचबलम् त्यजक्षमादृदिश्चौचमद्रोहो नादिमानिदा भवन्ति सम्बधं शम्भो दर्पोऽभिमानश्चक्रोधक्पारुष्यमेव च अज्ञानं चाभिजादस्य पार्थसम्पदमासुरीम् दैवीसम्पद्विमोक्षाय निबन्धायासुरीमदा मा शु च सम्पदं दैवीमभिजादोऽसि द्वोधसर्गौ लोकेऽस्मिन् दैवा एव च दैवो विस्तरशप्रोक्त आसुरं पार्थमे शृणु प्रवृत्तिं च निवृत्तिं च जनानविदुरासुराः न ना शौचं नापि चाचारो न ना सत्यं तेषु विद्यते असत्यमप्रदिष्टं ते, ते जगदाहुरनीश्वरम् अपरस्परसम्भोदङ्गिमन्यत्कामहैतुकम् एतां दृष्टिमवष्टव्य नष्टात्मानोऽल्पबुद्धयः प्रपवन्त्युग्रकर्माणक्षयाय जगतोहिताः काममाश्रित्य दुष्पूरं दम्भमानमदान्विताः मोहाद्गृहीत्वा सद्ग्राहान् भगवद्गीता चाप्टर् सिक्स्टीन् वर्सस् लेवेन् टु ट्वेण्टि चिन्तामपरिमेयाञ्जप्रलयान्तामुपाश्रिताः कामोपभोगपरमा यदावदि निश्चिताः आशापाशशदैर्बद्ध कामक्रोधपरायणाः इहन्दे कामभोगार्धमन्यायेनार्थसञ्जयान् इदमद्य मया लब्धम् इमम् प्राप्स्ये मनोरथम् इदमस्तीदमपि मे भविष्यदि पुनर्दनम् असौ मया हतशत्रुहनिष्ये ईश्वरोऽहमहं भोगी सिद्धोऽहं बलवान् सुखी आढ्योऽजनवानस्मि कोऽन्योऽस्ति सदृशो मया यक्ष्ये दास्यामि मोदिश्य इत्यज्ञानविमोहिताः अनेकचित्तविभ्रान्ता मोहजालसमावृताः प्रसक्तः कामभोगेषु पदन्दिनरकेषु चौ आत्मसम्भावितस्तब्धा धनमानमगान्विताः यजन्ते नाम यज्ञैस्ते तम्भेनाविधिपूर्वकम् अहङ्कारं बलं दर्पं कामं क्रोधं संसृताः मात्मपरदेहेषु प्रद्विषन्तोऽभ्यसूयकाः तानहं द्विषद क्रूरान् संसारेषु न राधमान् क्षिपां यजस्रमशुवानसुरिष्वेव योनिषु आसुरीं योनिमा जन्मनि जन्मनि मामप्राप्यैव कौन्देय तदोयान्द्यध मां गतिम् भगवद्गीता चाप्टर् सिक्स्टीन् वर्षस् ट्वेण्टि वन् टु ट्वेण्टि फोर् त्रिविधं नरकस्येदं द्वारं नाशनमात्मनः कामक्रोधस्तदा लोभस्तस्मादेतत्रयं त्यजे यदैर्विमुक्तक्रौन्देयतमोद्वारयिस्तृभिर्नरः आचरत्यात्मनश्रेयस्ततो याधिपरां गतिम् यश्शास्त्रविधिमुत्सृज्य वर्तते कामकारतः न सिद्धिमवाप्नोदि न सुखं न परां गतिम् तस्माच्छास्त्रं प्रमाणं ते कार्याकार्यव्यवस्थितौ ज्ञात्वा शास्त्रविधानोक्तं कर्म कर्तुमिहार्हसि ॐ तत्सज्जिति श्रीमद्भगवद्गीतासु षोडशोऽध्यायः